यै नमः ॐ छन्दपरिच्छदाय नमः ॐ छायादेव्यै नमः ॐ छिद्रनखाय नमः ॐ छन्देन्द्रियविसर्पिण्यै नमः ॐ छन्दोऽनुष्टुत्प्रतिष्ठान्ताय नमः ॐ छिद्रोपद्रवभेदिन्यै नमः ॐ छेदाय नमः ॐ छत्रैश्वर्यै नमः छिन्नाय नमः ॐ छुरिकाय नमः ॐ छेलन्क्रियायै नमः ॐ जनन्यै नमः ॐ जन्मरहिताय नमः ॐ जातवेदाय नमः ॐ जगन्मय्यै नमः ॐ जाह्नव्यै नमः ॐ जटिलायै नमः ॐ जैत्र्यै नमः ॐ जरामरणवर्जितायै नमः ॐ जम्बुद्वीपवत्यै नमः ॐ ज्वालायै नमः ॐ जयन्त्यै नमः ॐ जलशालिन्यै नमः ॐ जितेन्द्रियाय नमः ॐ जतक्रोधाय नमः ॐ जितामित्रायै नमः ॐ जगत्प्रियाय नमः ॐ जातरूपमय्यै नमः ॐ जिह्वाय नमः ॐ जानक्यै नमः ॐ जगत्यै नमः ॐ जयाय नमः ॐ जनित्र्यै नमः ॐ जनुतनयायै नमः ॐ जगत्त्रयहितैषिन्यै नमः ॐ ज्वालामूल्यै नमः ॐ जपवत्यै नमः ॐ ज्वरघ्न्यै नमः ॐ जितविष्टपायै नमः ॐ जिताक्रान्तमद्यै नमः ॐ ज्वालाय नमः ॐ जाग्रत्यै नमः ॐ ज्वरदेवतायै नमः ॐ ज्वलन्त्यै नमः ॐ ज्वलदायै नमः ॐ ज्येष्ठायै नमः ॐ जाघोषस्फोटदिङ्मुख्यै नमः ॐ जम्भिन्यै नमः ॐ जृम्भनायै नमः ॐ जृम्भाय नमः ॐ ज्वलन्मणिक्यकुण्डलायै नमः ॐ्जिकायै नमः ॐ झणनिर्घोषायै नमः ॐ झञ्झामारुतवेगिन्यै नमः ॐ झल्लकिवाद्यकुशलाय नमः ॐ यरूपाय नमः ॐ यं भुजाय नमः ॐक भेदिन्यै नमः ॐ टङ्कबाणसमायुक्ताय नमः ॐकिन्यै नमः ॐ टङ्कभेदिन्यै नमः ॐ टङ्किगणकृताघोषाय नमः ॐ टङ्कनीयमहोरसायै नमः ॐकारिण्यै नमः ॐ ठ ठ नमः ॐ डामर्यै नमः ॐकिन्यै नमः ॐ डिम्भाय नमः ॐुण्डमारैकनिर्जितायै नमः ॐामरीतन्त्रमार्गस्थायै नमः ॐमरुनादिन्यै नमः ॐ डिण्डिर वसहासय नमः ॐबलसा क्रीडापरायणाय नमः ॐुण्डिविघ्नेशजनन्यै नमः ॐकाहष्टाय नमः ॐिलिव्रजाय नमः ॐ नित्यज्ञानाय नमः ॐ निरुपणाय नमः ॐ निर्गुणायै नमः ॐ नर्मदाय नमः ॐ त्रिगुणाय नमः ॐ त्रिपदायै नमः ॐ तन्त्र्यै नमः ॐ तुलस्यै नमः ॐ तरुणादित्यशङ्कुषाय नमः ॐ तामस्यै नमः ॐ तुहिनाय नमः ॐ तुयै नमः ॐ त्रिकालज्ञानसम्पन्नाय नमः ॐ त्रिवल्यै नमः ॐ त्रिलोचनाय नमः ॐ त्रिशक्त्यै नमः ॐ त्रिपुराय नमः ॐ तुङ्गाय नमः ॐ तुरङ्गवदनायै नमः ॐ तिमिङ्गिलिङ्गिलाय नमः ॐ तीव्रायै नमः ॐ त्रिश्रोतायै नमः ॐ तामसादिन्यै नमः